ब्रह्माण्डपुराणं मध्यभागम् अध्यायं तर्टीन् श्राद्धकल्पं बृहस्पतिरुवाच सकृदभ्यर्चिताः प्रीता भवन्ति पितरो व्ययाः योगात्मानो महात्मानो विपात्मानो महौजसः प्रत्यजस्वर्गलोकाय कामैश्च बहुलम्भुवि येषु वाप्यनुगृह्णन्ति मोक्षप्राप्तिक्रमेण तानि वक्ष्याम्यहं सौम्यसरांसि सरितस्तथा तीर्थानि चैव पुण्यानि देशांश्चैलांस्तथाश्रमान् पुण्यो हि त्रिषु लोकेषु सदैवामरकण्टकः पर्वतप्रवरपुण्यसिद्धया रणसेवितः यत्र वर्षसहस्राणि प्रयुतान्यर्बुदानि च तपःसुदुश्चरं देवे भगवानगिराः पुरा यत्र मृत्योर्गतिर्नास्ति तथैव सुररक्षसां तपसा तेजसा तस्य व्रजदेश नगोत्तमः शृङ्गे माल्यवधो नित्यं वह्निस्संवर्तको यथा मृदवस्तु सुगन्धाश्च हेमाभाप्रियदर्शनाः शान्ता कुशा इति ख्यादा परिदक्षिणनर्मदाम् दृष्टवान् स्वर्गसोपानं भगवानङ्गिराः पुरा अग्निहोत्रे महाते जाप्रस्तारार्थं कुशोत्तमान् तेषु दर्भेषु यः पिण्डान् मरकण्टकपर्वते दध्या सकृतपिप्राज्ञस्तस्य वक्ष्यामि यत्फलम् तद्भवत्यक्षयं श्राद्धं पितॄणां प्रीतिवर्धनम् अन्तर्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा तत्र ज्वालासरः पुण्यं दृश्यते चापि पर्वसु सशल्यानां च सत्त्वानां नदी। प्राग्दक्षिणायथावर्ता वापि सा सुनगोत्तमे कलिङ्गदेशपश्चार्थे शृङ्गे माल्यवधो विभोः सिद्धिक्षेत्रमृषिश्रेष्ठा यदुक्तं परमं भुवि सम्मदं देवदैत्यानां श्लोकं चाप् ्युशन जगौ धनिया ये प्राप्णक पितृस्य श्राधे पितृपरायणा अल्पेन तपसा सिद्धि गमीष्य संशय सकर्चिता स्वर्गमामरकण्टके महेन्द्रपर्वतः पुण्यो रम्यचक्रनिषेवितः तत्रुह्य भवेत् पूतश्राद्धं चैव महाफलं वैलाडशिखरे युक्त्वा दिव्यं चक्षुः प्रवर्तते अदृश्यश्चैव भूतानां देववच्चर धहीं सप्तगोदावरे चैव तपोवने अश्वमेधफलं स्नात्वा तत्र दत्त्वा भवेत्तदः दूतपापस्थलं प्राप्य पूदस्नात्वा भवेन्नरः रुद्रस्तात्र तपस्तेपे देवदेवो महेश गोकर्णे निहितम देवर्नास्तिदर्शनमब्राह्मण से सात्रीं पठतस्तु प्रणश्यति देर्षिभवने श्रृंगे सिद्धचारण सूह्य तम नियमवांस्ततो यादित्रिविष्टपं दिव्यैश्चन्दनवृक्षैश्च पादपैरुपशोभितम् आपश्चन्दनसंयुक्तास्पन्दन्ति सततं ततः नदी प्रवर्तते ताभ्यस्ताम्रपर्णीति नामदः या महाखण्डादक्षिणं यादिसागरं नद्यास्तस्याश्च ताम्रायास्तुह्यमाना महो दधौ शङ्खा भवन्ति शुक्र्यश्च जायदे यासु मौख्रिकम् उतकानयनं कृत्वा शङ्खमौक््रिकसंयुधम् आधिभिर्व्याधिभिश्चैव मुक्ता यान्द्यमरावतीं चन्दनेभ्यः प्रसूतानां शङ्खानां मौक्तिकस्य वा पापकर्तॄनपि पितृं स्तारयन्ति यथा श्रुति चन्द्रतीर्थे कुमार्यां च कावेरीप्रभवेक्षये श्रीपर्वतस्य तीर्थेषु वैकृते च तथा गिरौ एकस्था यत्र दृश्यन्ते वृक्षाश्यौषीरपर्वते पदा शाखदिरा बिल्वाप्लक्षाश्वविकङ्कताः एवं द्विमण्डलाविद्धं विज्ञेयं द्विजसतमाः अस्मिं त्यक्त्वा जनोऽङ्गानि क्षिप्रं यात्यमरावतीम् श्रीपर्वतस्य तीर्थे तु वैकृते च तथा कर्माणि तु सिद्ध्यन्ति प्रभवाप्यये दुष्प्रयुक्ता हि सुप्रयोगा सुप्रयोगगाुद पतृण दुहिता पुण्या नर्मदा सरिदाबरा यद्धा दत्ता नि्यक्ष भुध मठर से वने पुण्य सिद्धचारण सेविते, अंत नी युक्त तस्मगिंध्य गिरौ धारां धर्मर्मदर्शनी धारा पापन पश्य धारा पश्य साधव त्र तृश्य पाप कित्पक कैलासे यामदङ्गस्य वा पी पापनिषूदनी स्नात्वा तस्यां दिवं यान्ति कामचारा विहङ्गमाहार्पारके तथा तीर्थे पर्वते पालमञ्जरे पाण्डुकूपे समुद्रान्ते पिण्डारकतटे तथा विमले विपापेच संकल्पं प्राप्य चाक्षयम् श्रीवृक्षे चित्रकूटे च जम्बूमार्गे नित्यशः असितस्य तस्य गिरौ योगाचार्यस्य योगाचार्यस्यधिमतः तत्रापि श्राद्धमानन्द्यमसितायां च नित्यशः पुष्करेश्वक्षयं श्राद्धं तपश्चैव महाफलं महो दधौ प्रभासे च तद्वदेव विनिर्दिशेत् देविकायामृषो नाम कूपसिद्धनिषेविदः समुत्पदन्ति तस्या भोगवां शब्देन नित्यशखात् योगेश्वरैः सदा जुष्टः सर्वपाप बहिष्कृतः दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् अक्षयं सर्वकामीयं श्राद्धं प्रीणादि वै पितृन् जादवेद तत्र साक्षादग्नेः ्राद्धानि चाग्निकार्यञ्च तत्र कुर्यात् सदा क्षयं यस्त्वग्निं प्रविशेत् तत्र नाकपृष्ठे स मोददे अग्निशान्धः पुनर्जातस्तत्र दत्तं ततोक्षयं दशाश्वमेधिके तीर्थे तीर्थे, तीर्थे पञ्चाश्वमेधिके यथोद्दिष्टफलं तेषां क्रदूनां नात्र संशयः ख्यातं हयशिरो नाम तीर्थं सद्यो वरप्रदं श्राद्धं तत्र सदाक्षयं दादा स्वर्गे च मोदते श्राद्धं सुन्दनि सुन्दे च देयं पापनिषूदनं श्राद्धं तत्राक्षयं प्रोक्तम् जप होमतपांसि च जदुङ्गे शुभे तीर्थे तर्पयेत् सततं पितॄन् दृश्यते पर्वशुच्छाया यत्र नित्यं दिवौकसां पृथिव्यामक्षयं दत्तं विरजा यत्र पादपः योगेश्वरैः सदा जुष्टः सर्वपाप बहिष्कृतः दध्या यस्त वक्षा यदल अर्चितास्तेन वै साक्षाभव पितर सदा अस्म लोके वशी चाहे स्वर्गे महीय प्रायशोम मद्रवा शिव नाम ह्रदस्तः त्र सरपु्यम दिव्यो ब्रह्मह्रदस्तथा ऊर्जन्तःपर्वतः पुण्यो यत्र योगेश्वरालयः अत्रैव चाश्रमः पुण्यो वसिष्ठस्य महात्मनः ऋग्यजुस्सामशिरः स कपोतः पुष्पस्साह्वयाः आख्यान वेदा सृष्टा ह्येदे स्वयम्भुवा गत्वैतान्मुच्यते पापाद्विजो द्विजो वह्निं समाश्रयन् श्राद्धं चानन्द्यमे देषु जप होमतपांसि च पुण्डरीके महातीर्थे पुण्डरीकसमं फलम् ब्रह्मतीर्थे महाप्राज्ञ सर्वयज्ञसमं फलं सिन्धुसागरसम्भेदे तथा पञ्चनदेक्षयं विरजायां तथा पुण्यं मद्रवायाञ्च पर्वते देयं सप्तनदे मानसेवा विशेषतः महाकूटे ह्यनन्दे च गिरौत्रिककुदे तथा सन्ध्यायां च महानद्यां दृश्यते महादद्भुतम् अश्रद्धधानं नाभ्येदि सा चाभ्येदि धृतव्रतं संश्रयित्वयिगमेघेन सा याह्नं तस्मिन् देयं सदाश्राद्धं पितॄणामक्षयार्थिनाम् कृदात्मा वा कृदात्मा च यत्र विज्ञायते नरः स्वर्गमार्गप्रदं नामतीर्थं सद्योवरप्रदं चीराण्युत्सृज्य यस्मिंस्तु दिवं सप्तर्षयो गताः अद्यापि तानि दृश्यन्ते चिराण्यं भोगतानि तु स्नात्वा स्वर्गमवाप्नोति तस्मिं तीर्थेत्तमे नरः ख्यातमायतनं तत्र नन्दिनः सिद्धसेवितं नन्दीश्वरस्य निराचारै न दृश्यते दृश्यन्ते काञ्चना युपास्त्वर्चिषो भास्करो दये कृत्वा प्रदीक्षिणं तांस्तु गच्छन्त्यानन्दितादिवं सर्वतश्च कुरुक्षेत्रं सुतीर्थं तु विशेषतः पुण्यं सनत्कुमारस्य योगेशस्य महात्मनः कीर्त्यते जतिलां दत्वापि वै सदा क्षयम् श्राद्धं धर्म राजनिषेविधं श्राद्धं दत्तममावास्यां विधिना च यथाक्रमं पुंसः कुरुक्षेत्रे विशेषतः अर्चयित्वा पितृंस्तत्र सपुत्रस्त्वनृणो भवेद् सरस्वत्यां विनशने प्लक्षप्रश्रवणे तथा व्यासतीर्थे दृशद्वत्यां त्रिप्लक्षे च विशेषतः यमोकार पववने श्राद्धम क्षय गंगाया मैनाकेच नगोत्तमे यमुना सर्वपापै प्रमुच्यते प्रभव चर्वै प्रमुच्य यमस्य भगिनी यमशिपुष्या मार्तण्डदुःखिताशुभा तत्राक्षयं सदा श्राद्धं पितृभिः पूर्वकीर्तितं ब्रह्म तुण्डहृदिष्णत्वा सद्दयो भवति ब्राह्मणः तस्मिं स्तुश्राद्धमानन्द्यं जप होमतपांसि च स्थाणुभूगोचरत्तत्र वसिष्ठो वै महातपाः अद्यापि तत्र दृश्यन्ते पादपामणिबर्हणाः तुल्यादु दृश्यते तत्र धर्मान्धर्मनिदर्शनी यथा वैतोलिदं विप्रायस्तीर्थानां फलमुत्तमं पितॄणां दुहिता योगा गन्धकालीति विसृता चतुर्धो ब्रह्मणस्त्वंशः पराशर कुलोद्भवः च दुर्धा वै वेदं धीमान्महामुनिः महायोगमहात्मानं या व्यासं जनयिष्यति अच्छोदकं नाम सरस्तत्राच्छोदासमुद्भवः मत्स्ययोनौ ना पुनर्जादा रणे नदू तस्यास्त्वाद्याश्रमे पुण्ये पुण्यकृद्भिर्निषे विदे दत्तं सकृतभिश्राद्धमक्षयं समुदाहृतं नद्यां योगसमाधानं दत्तं युगपदुद्भवेत् कुबेरतुङ्गे पापघ्नं व्यासतीर्थे तथैव च पुण्यायां ब्रह्मणो वेद्यां श्राद्धमानन्द्यमिष्यते सिद्धैस्तु सेविता नित्यं दृश्यते तु कृतात्मभिः अनिवर्तनं तु नन्दायां वेद्याः प्रागुत्तरदिशि सिद्धिक्षेत्रं सुरैर्जुष्टं यत्प्राप्य न निवर्तते महालये पदं न्यस्तं महादेवेन धीमदा भूतानामनुकम्पार्थं नास्तिकानां निदर्शनम् विरजे त्वक्षयं श्राद्धं पूर्वमेव महालये नन्दायां विरजे चैव तथैव च महालये आत्मानं तारयन्दीह दशपूर्वान् दशापरान् काकप्रदेजादिस्मर्यं सुवर्णममितौजसम् कौमारं च सरपुण्यं नागभोगाभिरक्षितं कुमारतीर्थे स्नात्वादु त्रिदिवं व्याधिमानवः देवालये तपस्तस्वा एकपादेन दुश्चरं निराहारो युगं दिव्यमुमातुङ्गो स्थितोज्ज्वलन् उमातुङ्गे भृगोस्तुङ्गे ब्रह्मतुङ्गे महालये तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता अक्षयं तु सदा श्राद्धं शालग्रामे समन्ततः दुष्कृतं दृश्यते तत्र प्रत्यक्षमकृतात्मनां प्रत्यादेश्योह्यशिष्टानां शिष्टानां विशेषतः तत्र देवह्रदः पुण्यो ब्रह्मणो नागराक्षुचिः पिण्ठं हि सदां न गृह्णात्यसदां सदा अतिप्रदीप्तैर्भुजगैर्भोक्तुमन्नं न शक्यते प्रत्यक्षं दृश्यते धर्मस्तीर्थयोर्नदयोर्द्वयोः कारवत्याञ्च शाण्डिल्यां गत्वा चैदानि पूदस्याच्छ्रादमक्षयमेव च जपो होमस्तपो ध्यानं यत्किञ्चित् सुकृतं भवेद् ब्रह्मचर्यं च यौधत्ते गुरुभक्तिं शतं समाह एवमाद्या सरिश्रेष्ठा यस्नानादखमोक्षणम् कुमरधारा तृष्ट पापम प्रणश्यति ध्यानासन तो त्यादी दृश्य शैलकांतिपुराभ्यासुदीच्या दिशि स्थित पुण्यपुष्किणी त्र किगणरक्षिता यहा सकृद्विप्रकामानाप्नो दिशाश्वतान् अदृश्य सर्वभूतानां देववत्सरदेमहीं काश्यपश्य महातीर्थं कालसर्पिरिधि श्रुतं तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छदा देवदारुवनेवापि धारायास्तु निदर्शनम् निर्धता तो पापी दृश्य सुम भागीरथ्यागे तो नित्यमक्षयमुच्यते कालंजरे दशाणे कुले वाणस नगरियां चेयं श्राद्ध प्रयत्न त्र योग नि तस्यां दत्तमधाक्षयम् गत्वा च इदानीं जपो होमस्तथा ध्यानं यत्किञ्चित् सुकृतं भवेद् लौहित्येवैतरण्यां च स्वर्गवेद्यां तथैव साधुदेवी समुद्रान्ते दृश्यते चैव नामभिः गयायां धर्मपृष्ठे सरस्य सरसि ब्रह्मणस्तथा गयां गृध्रवणे चैव श्राद्धं दत्तं महाफलं हिमं पतते तत्र समन्तात् पञ्चयोजनं परतस्याश्रमे पुण्येरण्यं पुण्यतमं स्मृतम् मदङ्गस्य वनं तत्र दृश्यते सर्वमानुषैः स्थापिदं धर्मसर्वस्वं लोकस्यास्य निदर्शनं यद्दण्डकवनं पुण्यं पुण्यकृद्भिर्निषेवितं यस्मिन्प्राहुर्विशल्येति तीर्थं सद्यो निदर्शनम् तुलामानैस्तथा चापि शास्त्रैश्च विविधैस्तथा उन्मच्चन्ति तथा लग्न एवै पापकृतो जनाः तृतीयायां तथा पादे निराधायां तु मण्डले महाकृते च कौशिक्यां दत्तं श्राद्धं महाफलम् मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता बहुदेवयुगां तप्त्वा तपस्तीव्रं सुदश्चरम् अल्पेनाप्यत्र कालेन नरो धर्मपरायणः पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः सिद्धानां प्रीतिजननं पापानां च भयङ्करं लेलिहानैर्महाघोरैरक्ष्यदे सुमहोरगैः नाम्नाकनकनन्दीरितीर्थं जगदि विश्रुतम् उदीत्या मुण्डपृष्ठस्य ब्रह्मर्षिगणसेवितम् तत्र स्नात्वा दिवं यान् दि स्वशरीरेण मानवाः दत्तं वापि सदा श्राद्धमक्षय्यं समुदाहृदं ऋणै स्त्रिभिस्तदस्नात्वा निष्क्रीणादि मानसे सरसि स्नात्वा श्राद्धं निर्वर्तयेत्तदः स्थिरे सरसस्तस्य देवस्यायतनं महद आरुह्यतु जपंस्तत्र सिद्धो यादिवन्तदः उत्तरमानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमां स्नात्वा तस्मिन् सरश्रेष्ठे दृश्यते महादद्भुतम् दिवश्च्युदा महाभागाह्यन्तरिक्षे विराजते गङ्गात्रिपथगादेवी विष्णुपादाच्युदा आकाशे दृश्यते तत्र तोरणं सूर्यसन्निभं जाम्बूनदमयं पुण्यं स्वगद्वारमिवायतम् ततः प्रवर्तते भूयः सर्वः पावनी पावनीस्सर्वभूतानां धर्मज्ञानां विशेषतः चन्द्रभागाजसिद्धुश्च मानससंभवे मानससम्भवे सागरं पश्चिमं यादो दिव्यसिन्धुन दोवरः पर्व हिमवान्ना धा विभूषि आयद वैसहस्राणी योजना बहूनी तो सिद्धचारण संगीर्ण तत्र पुष्किणी रम्या सुषुम्नाम नाम, नाम दशवर्षसहस्राणि तस्यां स्नातस्तु जीवति श्राद्धं भवति च तत्र दत्तं महोदयं तारयेच्च सदा श्राद्धे दशपूर्वान् दशापरान् सर्वत्र हि मवान् पुण्यो गङ्गापुण्या समन्ततः समुद्रगाः समुद्राश्च सर्वे पुण्याः समन्ततः एवमादिषु च अन्येषु श्राद्धं निर्वर्तयेद्बुधः पुदो भवति वैष्णात्वा हुत्वा दत्त्वा कन्दरेषु गुहासु च उपह्वरनिदम्बेषु च पुलिनेष्वापगानां च तथैव प्रभवेषु च महोदधौ गवां गोष्ठे सङ्गमेषु वनेषु च सुसंमृष्टोपलिप्तेषु धृत्येषु सुरभिश्व गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च कुर्या श्राद्धमदैतेषु नित्यमेव यथाविधि प्राग्दक्षिणां दिशं गत्वा सर्वकामचिकीर्षया एवमेधेषु सर्वेषु श्राद्धं कुर्यादतन्त्रितः ये तेष्वेवधुमेधा कुर्या विभ्राह्मीं त्रयवर्णविहितैस्थाने धर्मे वर्णाश्रमे रतैः कौपस्थानञ्च सन्त्यागात् प्राप्यते पितृपुजनं तीर्थान्यनुसरन्वीरश्रद्धधानः समाहितः कृतभावोऽपि शुद्ध्येद किं पुनः शुभकर्म तिर्यज्ञो निम्नगच्छे च चा, कुदेशे च न जायदे स्वर्गीभवदि विप्रो वै मोक्षोपायं च विन्ददि अश्रद्धानः पापायोर्नास्ति कोच्छिन्नसंशयः हेदुनिष्टश्च पञ्चैदे फलभागिनः गुरुतीर्थे परासिद्धितीर्थानां परमं पदं ध्यानं तीर्थं परं तस्माद्ब्रह्मतीर्थं सनातनम् उपवासात् परं ध्यानमिन्द्रियाणां निवर्तनम् उपवासनिबद्धैर्हि प्राणैरेव पुनः पुनः प्राणापानौ वशे कृत्वा च बुद्धिं मनसि संयम्य सर्वेषां तु निवर्तनं प्रत्याहारं कृतं विद्धि मोक्षोपायमसंशयम् इन्द्रियाणां मनोघोरं बुद्ध्यादीनां विवर्तनम् अनाहारो क्षयं व्याधि विद्याधनशनं तपः निग्रहे बुद्धिमनसोरन्यबुद्धिर्न जायते क्षीणेषु सर्वदोषेषु क्षीणेष्वेवेन्द्रियेषु च परिनिर्वादिशुद्धात्मा यथा वह्निरनिधनः कारणेभ्यो गुणेभ्यश्च व्यक्ताव्यक्ता च कुत्स्नशः नियोजयधि क्षेत्रज्ञं तेभ्यो योगेन योगविद तस्य गदिस्थानं गतिस्थानं व्यक्ताव्यक्ते च सर्वशः न सन्नासन्न सदसन्नैव किञ्चिदवस्थितः यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोधत पा श्राद्धके नामत्रयो नाम दशोध्याय